अध्यात्मरामायणम् अरण्यकाण्डं सर्गं वन् श्रीमहादेव उवाच अथ तत्र दिनं स्थित्वा प्रभाते रघुनन्दनः स्नात्वा मुनिं मुने गच्छा मुनि गच्छामहे सर्वे मुनिमण्डलमण्डितम् विपिनं दण्डकं यत्र त्वमाज्ञातुमिहार्हसि मार्गप्रदर्शनार्थाय शिष्यानाज्ञाप्तुमर्हसि श्रुत्वा रामस्य वचनं प्रहस्यात्रिर्महायशाः प्राह तत्र रघुश्रेष्ठं राम, राम सुराश्रय सर्वस्य मार्गद्रष्टात्वं तव को मार्गदर्शकः तथापि दर्शयिष्यन्ति तव लोकानुसारिणः इति शिष्यान् समादिश्य स्वयं किञ्चित्तमन्वगाद रामेण वारितः त्रिस्वभवनं ययौ क्रोशमात्रं तदो गत्वा ददर्शमहतीं नदीम् अत्रे शिष्यानुवाचेदं रामो राजीवलोचनः नद्याः सन्तरणे कश्चिदुपायो विद्यते न ऊचुस्ते विद्यते नौका सुदृढा रघुनन्दन तारयिष्यामहे युष्मान् त्वयमेव क्षणादिह तदोनाविसमारोप्य सीतां राघवलक्ष्मणौ क्षणात् सन्तारयामासुर्नदीं मुनिकुमारकाः रामाभिनन्दिताः सर्वे जग्मुरत्रेरथाश्रमं तावेत्य विपिनं घोरं नाना मृगगणाकेर्णं सिंहव्याघ्रादिभीषणम् राक्षसार्घोररूपैश्च सेवितं रोमहर्षणम् प्रविश्य विपिनं घोरं रामो लक्ष्मणमब्रवीद इतः परं प्रयत्नेन गन्तव्यं सहितेनमे मे धनुर्गुणेन संयोज्य शरानपि करेर्दधत् अग्रे यास्याम्यहं पश्चात् त्वमन्वेहि धनुर्धर आवयोर्मध्यगासीता मायेवात्मपरात्मनोः चक्षुश्चारय सर्वत्र दृष्टं रक्षो भयमहत विद्यते दण्डकारण्ये श्रुतपूर्वमरिन्दम इत्येवं भाषमाणौ तौ जग्मदुस् सार्धयोजनं तत्रैका पुष्करिण्यास्ते कल्हारकुमुदोत्पलैः अम्बुजैशीतलोदेन शोभमानाव्यदृश्यत तत्समीपमधो गत्वा पीत्वा तत्सलिलं शुभम् ऊषुस्ते सलिलाभ्यासे क्षणं छायामुपाश्रिताः तदो ददृशुरायान्दं महासत्त्वम् भयानकं करालदंष्ट्रवदनं भीषयन्तं स्वगर्जितैः वा मांसेन्यस्तशूलाग्रग्रथितानेकमानुषम् भक्षयन्तं गजव्याख्रमहिषं वनगोचरं ज्यारोऽपिदं धनुर्धृत्वा रामो लक्ष्मणमब्रवीद पश्यभ्राधर्मःकायो राक्षसोऽयमुपागतः आयात्यभिमुखं भी नोग्रे भीरूणां भयमावहन् सज्जीकृतधनुस्तिष्ठ मा भैर्जनकनन्दिनी इत्युक्त्वा बाणमादाय स्थितो राम इवाचलः सद् दृष्ट्वा रमानाथं लक्ष्मणं जानकीं तदा अष्टहासं तदकृत्वा कृत्वा भीषयन्निदमब्रवीत् कौयुवां बाणतूणीरजडावल्कलधारिणौ मुनिवेषधरौ बालौ स्त्रीसहायौ सुदुर्मदौ सुन्दरौ पदमे वक्त्र प्रविष्टकवलोपमौ किमर्थमागधौघोरं वनं व्यालनिषेविधम् श्रुत्वा रक्षो वचो रामस्मयमान उवाच तम् अहं रामस्त्वयं भ्राता लक्ष्मणो मम सम्मतः येषा मम प्राणावल्लभा वयमागताः पितृवाक्यं पुरस्कृत्य शिक्षणार्थम् भवादृशां श्रुत्वा तद्रामवचनमठः समथकरोत् व्यादाय वक्त्रं बाहुभ्यां शूलमादाय सत्वरः मां न जानासि रामत्वं विराधं लोकविश्रुतं मद्भयान्मुनयः सर्वे त्यक्त्वा वनमितो गताः यदि जीवितुमिच्छास्ति त्यक्त्वा सीतां निरायुधौ भक्षयामि युवामहम् इत्युक्त्वा राक्षसीदा रामश्चिच्छेद तद्बाहू शरेण प्रहसन्निव तथ क्रोधपरीदात्मा व्याधाय विकटं मुखं राममभ्यद्रवद्रामश्चिच्छेद परिधावतः पदद्वयं विराधस्य तदद्भुतमिवाभवत् तदसर्प इवास्येन ग्रसितुं राममापतत तदोर्धचन्द्राकारेण बाणेनास्य महच्चिरः चिच्छेदरुधिरौखेण पपात धरणीतले ततसीदा समालिङ्ग्य प्रशशंस रघोत्तमम् तदो दुन्दुभयो ने दुर्दिवि देवगणेरिताः न नृतुश्चाप्सरा हृष्टा जगुर्गन्धर्वकिन्नराः विराधकायादतिसुन्दराकृतिर्विभ्राजमानो विमलाम्बरावृतः प्रदप् चामीकर चामीकरचारुभूषणोऽव्यदृश्य ताग्रे गगने रविर्यथा प्रणम्य रामं प्रणतार्तिहारिणं भवप्रवाहो परमं कृणाकरं प्रणम्य भूयः प्रणनामदण्डवत् प्रपन्नसर्वार्ति हरं प्रसन्नधीः विराध उवाच श्रीरामराजीव दलायताक्षविद्याधरोऽहं विमलप्रकाशः दुर्वाससा करणकोपमूर्तिना शप्तः पुरा सोद्य विमोचितस्त्वया ितः परं त्वच्चरणारविन्दयोस्मृतिः सदा मेस्तु भवोपशान्तये त्वन्नामसङ्कीर्तनमेव वाणी करोतु मे कर्णपुडं त्वदीयम् कथामृतं पादु ते पादारविन्दार्चनमेव कुर्याद शिरश्च ते पादयुगप्रणामं करोतु नित्यं भवदीयमेवं नमस्तुभ्यं भगवदे विशुद्धज्ञानमूर्तये आत्मा रामाय रामाय सीता रामाय वेधसे प्रपन्नं पाहि मां राम यास्यामि त्वदनुज्ञया देवलोकं रघुश्रेष्ठमाया रे मा वृणोतु ते इति विज्ञापितस्तेन प्रसन्नो रघुनन्दनः ददौ वरं तदा प्रीदो विराधाय महामतिः गच्छ विद्याधरा शेषमाया दोषगुणार्जिताः त्वया मद्दर्शनात् सद्यो मुक्तो ज्ञानवदाम्बरः मद्भक्तिर्दुर्लभालोके जादा चेन्मुक्तिदा यतः अतस्त्वं भक्तिसम्पन्नः परं याहि ममाज्ञया रामेण रक्षो निधनं सुघोरं शापाद्विमुक्तेर्वरदानमेवं विद्याधरत्वं पुनरेवलब्धं रामं गृणन्नेधि नरोखिलार्थान् यदि श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अरण्यकाण्डे प्रथमः सर्गः ॐ